कृताम् विन्दुसरोरत्नैर्मयेन स्फाटिकच्छदाम् अपश्यम् नलिनीम् पूर्णामुदकस्येव भारत वस्त्रमुत्कर्षति मयि प्राहसत्स वृकोदरः विमूढं रत्नवर्जितं। रत्नवर्जितम् तत्र स्म यदि शक्तस्याम् पातयेऽहम् वृकोदरम् यदि कुर्याम् समारम्भम् भीमम् हन्तुम् न राधिप शिशुपालैवास्माकम् गतिः स्यान्नात्र संशयः सपत्नेनावहासो मे दहति भारत पुनश्च तादृशीमेव वापीम् जलजशालिनीम् मत्वा शिलासमाम् तो तत्र माम् प्राहसत्कृष्णः पार्थेन सह सुस्वरम् द्रौपदी च सहस्त्रीभिर्व्यथयन्ती मनो मम क्लिन्नवस्त्रस्य तुजले किङ्करा राजनोदिताः ददुर्वासांसि मेऽन्यानि तच्च दुःखम् परम्